अथ पञ्चचत्वारिंशः सर्गः अनुरक्ता महात्मानम् रामम् सत्यपराक्रमम् अणुजग्मुः प्रयान्तम् वनवासाय मानवाः निवर्तितेतीव बलात् सुहृद्धर्मेण राजनि नैव ते सन्न्यवर्तन्त रामस्यानुगतारथम् अयोध्यानिलयानाम् हि पुरुषाणाम् महायशाः बभूवगुणसम्पन्नः पूर्णचन्द्र इव प्रियः स याच्यमानः काकुत्स्थस्ताभिः प्रकृतिभिस्तता कुर्वाणः पितरम् सत्यम् वनमेवान्वपद्यत अवेक्षमाणः सस्नेहम् चक्षुषा प्रपिबन्निव उवाचरामः सस्नेहम् ताः प्रजा स्वाः प्रजा इव मत्प्रिियाेण भरते सहि साधीयता स हि कल्याणचारि कैकेवर्धन क्यवध प्रिया हिता ज्ञानवृद्धो वो बालो मृदुन्व अस वो भर्ताति भयापह स हि राजुणुक्वराज समीक्षि अपि चापि मया शिष्टैः कार्यम् वो भर्तृशासनम् न सन्तप्येद्यथा चासौ वनवासङ्गते मयि महाराजस्तथा कार्य मम प्रियचिकीर्षया यथा यथा दाशरथिर्धर्ममेवाश्रितो भवेत तथा तथा प्रकृतयो रामं पतिमकामयन् बाष्पेणपि हितम् दीनम् रामः सह सकर्षेव गुणैर्बद्धम् जनम् पुरनिवासिनम् ते द्विजास्त्रिविधम् वृद्धा ज्ञानेन वयसौजसा वयः प्रकम्भशिरसो दूरादूचुरिदम् वचः वहन्तो जवनारामम् भो भो जात्यास्तुरङ्गमाः निवर्तध्वम् योऽयम् तस्मान्निवर्तध्वम् याचना प्रतिवेदिताः धर्मतः विशुद्धात्मा वीरः शुभदृढौ रतः उपबाह्यस्तु वो भर्तानापवाह्यः पुराद्वनम् एवमार्तप्रलापांस्तान् वृद्धान् प्रलपदो द्विजान् अवेक्ष्य सहसारामो रथादवततारः पद्भ्यामेव जगामाथ ससीतः सः लक्ष्मणः सन्निकृष्टपदन्यासो रामो वनपरायणः द्विजातीन् हि पदातींस्तान् रामश्चारित्रवत्सलः दशशाकघृणा चक्षुः परिमोक्तुम् रथेन सह गच्छन्तमेव तम् दृष्ट्वा रामम् सम्भ्रान्तमानसाः ऊजुः परमसन्तप्ता रामम् वाक्यमिदम् द्विजाः ब्राह्मण्यम् कृत्स्नवे द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्वमी वाजपेयसमुत्थानि छत्राण्येतानि अनवाप्तादपत्रस्यरश्मिसंतापितस्यते पृष्ठतो नु त्वत्कृते सा कृता वत्स वनवासानुसारिणी हृदयेष्ववतिष्ठन्ते वेदा येनः परम् धनम् वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः पुनर्ननिश्च यः कार्यस्त्वद्गतौ सुकृता मतिः स्यात् धर्मपथे याचितो नो निवर्तस्व शिरोभिर्निभृताचारमहीपतनपांसुलैः बहूनाम् वितता यज्ञा द्विजानाम् य इहागताः तेषाम् समाप्तिरायत्ता तव वत्सनिवर्तने भक्तिमन्तीह भूतानि जङ्गमाजङ्गमानि च याचमानेषु तेषु त्वम् भक्तिम् भक्तेषु दर्शय अनुगन्तुमशक्तास्त्वाम् उन्नता वायुवेगेन विक्रोशन्तीव पादपाः निश्चेष्टाहारसञ्चारा वृक्षैकस्थाननिश्चिताः पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् एवम् विक्रोशताम् तेषाम् द्विजातीनान्निवर्तने ददृशे तमसा तत्र वारयन्तीव राघवम् ततः सुमन्त्रोऽपि रथाद्विमुच्य श्रान्तान्मयान्सम् परिवर्त्य शीघ्रम् पीतोदकां स्तोय परिप्लुताङ्गानचारय द्वैतमसा इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे पञ्चचत्वारिंशः